अत प्रथमाष्टके सप्तमप्रश्नप्रारम्भः ओ एतद्ब्राह्मणान्येव पञ्चहबीगुंषि रजेन्द्रायशुनासीराय पुरोडाशन् द्वादशकपादन्यर्वपदि संवत्सरो वा इन्द्राशुनासीरः संवत्सरेणैववास्मान्नभवरुन्धे वायव्यम् पयो भवति वायुर्वैवृष्ट्यै प्रदापयिता स एवास्मै वृष्टिम् प्रदापयति सौर्यकेकपालो भवति सूर्येण वा अमुष्मिल्लोके वृष्ट्यर्थता स एवास्मै वृष्टिम् नियच्छति द्वादशगवगुंसे रम् दक्षिणा समध्यै देवासुराः संयत्ता आसन् ते देवा अग्निमब्रुवन् त्वया वीरेणासुरानभिभवामेति सोऽब्रवीत् त्रेधाहमात्मानम् विकर्ष्य इति स त्रेधात्मानम् व्यकुरुत अग्निम् तृतीयम् रुद्रम् तृतीयम् वरुणम् तृतीयम् सोऽब्रवीत् कैलम् तुरीजमिति अहमितीन्द्रोऽब्रवीत् सन्तु सृजावः इति तौ समसृजेताम् स इन्द्रस्तुलीयमभवद् यदिन्द्रस्तुलीयमभवद् या तदिन्द्रतुरीयस्येन्द्रतुरीयत्वम् ततो वै देवाव्यजयन्त यदिन्द्रतुलीयम् न लप्यते विजित्यै वहिनीधेनुर्दक्षिणा यद्वहिनीः तेनाग्नेयी यद्गौ तेन रौद्री यद्धेनः तेनैन्द्रि यत् स्त्री सती दान्ता तेन वारुणे समध्ये प्रजापतिर्यज्ञमसृजता तगुम् सृष्टगम् रक्षागस्य जिघागुंसन् सजेताः प्रजापतिरात्मनो देवता निरमिमीता ताभिर्वै स दिग्भ्यो रक्षागुंसि यत्पञ्चावत्ते यञ्जुहोदि दिग्भ्यगेव तद्यजमानो रक्षागुंसि प्रणुदते स मोढकुम् रक्षः रक्षागस्ये रक्षा रक्षा रक्षनित्याः रक्षागस्येव सन्दहति अग्निलय रक्षोघ्नेः स्वाहेत्याः देवताभ्य एव विजिज्ञानाभ्यो भागधेयम् करोति वृष्टिवाही रथो दक्षिणा समृद्ध्यै इन्द्रो हत्वा असुरान् पराभाव्य ननुषिमासुरन्नालभत तगुम् शच्या गृह्णात् तौ समलभेताम् सोऽस्मादभिषुमतरोऽभवत् सोऽब्रवीत् सन्धागम् सन्दधावहै अथ नमाशुष्के न मा शुष्के ननार्द्रेण ना न दिवाननक्तमिति स एतमपाम् न वा एष शुष्को नार्द्रोग्युष् आसीत् अनुदितः सूर्यः न वा एतद्दिपानक्तम् तस्यैतस्मिल्लोके अवाम्खेन शिर उदवर्तयत् तदेन मन्ववर्तत मित्रदृगिति स एतान पा मार्गा न जनयत् तैर्वै स रक्षागस्य यदपामार्गहोमो भवति रक्षसामपहत्ते एकोल्मुखेन यन्ति तद्धि रक्षसाम् भागधेयम् इमाम् दिशञ्जन्ति एषा वै रक्षसाम् दिगे स्वायामेव दिशि रक्षाकुम् सिहन्ति स्वकृतकिरिणे जुहोतिप्रदरे वा एतद्वै रक्षसामायतनम् स्वदेवायतने रक्षाकुम् सिहन्ति पर्णमयेन स्रुवेण जुहोति ब्रह्म वै पर्णः ब्रह्मणैव रक्षादुम् सिहन्ति देवस्यत्वा त्वा सवितुः सवितु एव रक्षादुम् सिहन्ति अजम् रक्षोऽवधिष्म रक्षदित्याः रक्षसा विस्तृत्यै यद्वस्ते तद्दक्षिणा निरवत्यै आप्रतीक्षमायन्ति रक्षसा धात्रे पुरोडा शन्वादशकपालम् निर्वपति संवत्सरो वै धाता संवत्सरेणैवास्मि प्रजाः प्रजनयति अन्वेस्माननुमतिर्मन्यते राते राका प्रसिनी बाली जनयति प्रजास्वेव प्रजाता सुपुह्वा वाचन्दधाति विदक्षिणा समृद्धि आग्ना वैष्णवमेकादशकपालम् गर्वपति ऐन्द्रा वैष्णवमेकादशकपालम् वैष्णवम्त्रिकपालम् वीर्यम् वा अग्निः दीर्घ्यमिन्द्रः वीर्यम् विष्णुः प्रजा एव प्रजाता वीर्ये प्रतिष्ठापयति तस्मा प्रजा वीर्यापतेः वामनर्षभो मही दक्षिणा यद्वही तेनाग्नेयः यदृषभः तेन इन्द्रः यद्वामनः तेन वैष्णवः समिद्धि अग्ने सोमेजमेकादशकपालम् लग्भवति इन्द्रासोमेजमेकादशकपालम् सौम्यञ्चरम् सोमो सो वैरेतोधाः अग्निः प्रजानानाम् प्रजनयिता वृद्धानामिन्द्रः प्रदापयिता सोम एवास्मे रेतो दधाति अग्निः प्रजाम् प्रजनयति वृद्धामिन्द्रः प्रयच्छति बभ्रुदक्षिणा समृद्धि सोमापौष्णम् चरम् निर्वपति ऐन्द्रापौष्णम् चरम् सोमो वै रेतो धाः पूषापशूनाम् रजनयिता वृद्धानामिन्द्रः प्रदापयिता सोम एवास्मे रेतोदधाति पोषापशून् प्रजनयते वृद्धानीन्द्रः प्रगच्छति ओष्णश्चरुर्भवति इयम् वै पोषा अस्यामेव प्रतिष्ठते श्यामो दक्षिणा समृद्धि बहु वै पुरुषो मेऽध्यमुपगच्छते वैश्वानरम् द्वादशकपालम् निर्पपते संवत्सरो वा अगर्वे एश्वानरः संवत्सरेणैवैनग्यस्व िरण्यम् दक्षिणा पवित्रम् वै हिरण्यम् पुनात्येवनम् बहुवैराजन्यो नृतम् करोति उपजाम्यै हरते जिरातिब्राह्मणम् वदत्यनृतम् अनृते खलु वै क्रियवाणे वरुणो गृह्णादे वारुणय्यवमयम् चरण्यपदे वरुणपाशादेवैनम् मुञ्चते अश्वो रुणो हि देवतयाश्वस्सृद्धै पत्नीनामेतानि हवेदुंसि भवन्ति एते वै प्रदातारः एतेवादातारः य एव प्रदातारः ये वादातारः तदेवास्मै वा वा राष्ट्रम् प्रयच्छन्ते राष्ट्रमेव भवते यत्समाहृत्य निर्वपेत् अग्निनः स्युः यथा यथम् निर्वपतिरक्मित्वाय यत्सद्यो या निर्वपेयेत् यावतीमेकेन हविषाशिषमवरुन्धे तावतीमवरुन्धीत ता अन्वहन् निर्वपदे भोयसीमेवाशि तमवरुन्धे भोजसो यज्ञक्रतोऽनुपैते वारहस्पत्यञ्चरम् नर्वपदे ब्रह्मणो गृहे उभत एवास्मै ब्रह्म स गृह्यते अथो ब्रह्मन्नेव क्षत्रमन्वारम्भयति श्रीपृष्ठो दक्षिणासमृद्ध्यै अयीन्द्रमेकादशकपालगुम् गृहे इन्द्रियमेवावरुन्धे वृषभो दक्षिणासमृद्ध्यै आदित्यञ्चरम् महिष्ये गृहे इयम् वा अदितिः अस्यामेव प्रतिष्ठति गृहे भगमेवास्मिन् दधाति विचित्तगर्भावष्ठो हि दक्षिणा समृद्ध्यै नैरगतम् चरम् परिभक्त्यै गृहे कृष्णानाम् रेहीणाम् नखनर्भिन्नाम् आत्मानमेव निररतिम् निरवदयते कृष्णाकोटा दक्षिणा समृद्धे आग्नेयमष्टाकपालगुम्से धन्यो गृहे सेनामेवास्य सद्विश्यते हिरण्यम् दक्षिणासमृद्ध्यै वारुणम् दशकपालकम् सूतस्य गृहे वरुणसवमेवावरुन्धे महानिरष्टो दक्षिणासमृद्ध्यै मारुतकम् सप्तकपालम् रामण्यो गृहे अन्नम् वै मरुतः अन्नमेवावरुन्धे प्रश्नर्दक्षिणा समृद्ध्यै सावित्रम् द्वादशकपालम् क्षत्रुर्गृहे प्रसोत्यै ध्वस्तो दक्षिणा समृद्धि आश्विनन्दिकपालकम् सङ्ग्रहीतुर्गृहे अश्विनौ वै देवानाम् ऋषजो ताभ्यामेवास्मीभेषजम् करोति स वाद्यो दक्षिणा समृद्धि औष्णम् चरम् भागदुःखस्य गृहे अन्नम् वै पूषा श्यामो दक्षिणा समृद्धि रौद्रङ्गा विधुकम् चरुमक्षापापस्य गृहे अन्ततकेव रुद्रन्निरपदजते सपलमुद्वारो दक्षिणा सुवृद्धि द्वादशैतानि हवेगुंषि भवन्ति द्वादशमासा संवत्सरः संवत्सरेणैवास्मै राष्ट्रमवरुन्धे राष्ट्रमेव भवति यन्न प्रति निर्वते यत् रत्निन प्रतिनिर्वपति इन्द्रायसुत्राम्णे पुरोणाशनेकादुषकपालम् इन्द्रायादिम् होमुचे आशिष एवावरुन्धे अयम् न राजा वृत्रहाराजा भूत्वा वृत्रम् बध्यादित्याह आशिषमेवैतामाशास्ते मैत्राबारहस्पत्यम् भवति श्वेतादे ृहस्पत्ये मैत्रमपि दधाति ब्रह्म चैवास्मै क्षत्रम् च समीची दधाति अथो ब्रह्मन्नेव क्षत्रम् प्रतिष्ठापयति बालहस्पत्ये न पूर्वेण प्रचरति मुखत एवास्मै ब्रह्म सगृश्यति अथो ब्रह्मन्नेव क्षत्रमन्वारम्भयति स्वयङ्कृता स्वयम् दिनम् बर्हिः स्वयम् कृतविध्मः अनभिजितस्याभिजित्यै तस्माद्राज्ञामरण्यमभिजितम् सैव श्वेताश्वेतवत्सा दक्षिणा समृद्ध्यै देवसुवामेतानि हवीगुंषि भवन्ति एतावन्तो मयि देवानागुम् सवाः तये वास्मै सवान् प्रयच्छन्ति तयेन गुम् सुबन्ते अग्निरेवैनम् गृहपतीनागुम् सुमते सोमो वनस्पतीनाम् रुग्रः पशूनाम् बृहस्पतिर्वाचाम् इन्द्रो ज्येष्ठानाम् मित्रः सत्यानाम् कर्णो धर्मपतीनाम् एतदेव सर्वम् भवति समिता त्वा प्रसवानागुम् सुभतामिति दे देवादेवसुभस्थेत्याह यथा यजुरेवैतत् महते क्षत्राय महत आधिपत्याय महते जानराज्यायेत्याह आशिषमेवेतामाशास्ते एषवो भरता राजा सोमोऽस्माकम् ब्राह्मणा नकुम् राजेत्याह तस्मात्सोम प्रदित्यम् नाम राज्यमधारीत्याह राज्यमेवास्मिन् प्रतिदधाति स्वान्तम् वरुणो अशिश्रेदित्याह वरुणसमेव वरुन्धे शुचेर्मित्रस्य व्रत्या भूमेत्याह शुचिमेवैनम् व्रत्यम् करोति आन्महिमहतऋतस्य नामेत्याह एवम् सर्वे व्रात वरुणस्याभोवन्नित्याः सर्वभ्रातमेवैनम् करोति ये मित्र एवैररातिमतारे नित्याहरातिमेवैनम् तारयति असोषदन्त यज्ञजाकृते नेत्याः स्वदयत्येवैनम् व्यर्थितो जरिमाणन्न आनडित्याह आजुरेवास्मिन् दधाति द्वाभ्याम् विमृष्टे द्युपाद्यतमादः प्रतिष्ठित्यै अग्निशोमे यस्य चैकादशकपालस्य देवसुवाञ्च हरिषा भग्नजे स्विष्टकृते समपद्यति देवताभिरेवेण भजतः परिगृह्णाति विष्णुक्रमान् रमते विष्णुरेव भूत्वे माम् लोकानभिजयति अर्थे तस्थेति जुहोति आहुत्यैवैना निष्क्रीडाति अथो हविष्कृतानामेवाभिघुराणाम् गृह्णाति वहन्तीनाम् गृह्णाति एतावा अपाकम् राष्ट्रम् राष्ट्रमेवास्मै गृह्णाति अथो श्रियमेवैनमभिवहन्ति अपाम्बतिरसेत्याह मिथुनमेवाकः कृषास्योर्मिरित्याह ऊर्मिमन्तमेवैनम् करोति विषसेनासीत्याः सेनामेवास्य सद्गृश्यति से प्ररक्षितस्थेत्याः एतावां विषः विषमेवास्मै पर्योहति मरुतामोदस्थेत्याह अन्नम् वै मरुतः अन्नमेवावरुन्धे सूर्यवर्चसस्थेत्याः राष्ट्रमेव वर्चस्य कः सूर्यत्वच सस्थेत्याह सत्यम् वा एतत् यद्वरिषति अनृतम् यदातपदिवर्षति सत्यानृते एवावरुन्धे नैनगम् सत्यानृते पुतेः ग्यस्तः य एवम् वेद मान्दास्थेत्याह राष्ट्रमेव ब्रह्मवर्चस्यकः पाशास्थेत्याह राष्ट्रमेव वश्यकः शक्वरीस्थेत्याः पशवो वै शक्वरीः पशोनेवावृन्धे विश्वभृतस्थेत्याह राष्ट्रमेव पयस्यकः जनभृतस्थेत्याः राष्ट्रमेवेन्द्रिगाव्यकः अग्नेस्तेजस्याः स्थेत्याः राष्ट्रमेव तेजस्विकः अपामोषधीरागुम्रसस्थेत्याः राष्ट्रमेव मधव्यमकः सारस्वतम् ग्रहम् गृह्णाति एषा वा अवाम् पृष्ठम् यत्सरस्वती पृष्ठमेवैनगुम् समानानाङ्करोति षोडशभिर्गृह्णाति षोडशकलो वै पुरुषः यावानेव पुरुषः तस्मिन् दीर्यम् दधाति षोडशभिर्जुहोति षोडशभिर्गृह्णाति द्वात्रिकम् षट्सम्पद्यन्ते द्वात्रिकम् षडक्षरानुष्टुक् वागनुष्टुक् सर्वाणि छन्दागुंसि वाचैवैनकम् सर्वेभिश्चन्दोभिरभिषिञ्चति देवीरापः सम् मधुमतेर्मधुमतेभिः सृज्यध्वमित्याह ब्रह्मणे वेनाः सकम् सृजति अनाधृष्टास्वीदतेत्याह ब्रह्मणे वेनास्सादयति अन्तराहोदश्च भिष्टिनम् ब्राह्मणाच्छपुंसिनश्च साधयति आग्नेयो वे होताः ऐन्द्रो ब्राह्मणाच्छपुंसि तेजसा चैवेन्द्रियेण च भजतो राष्ट्रम् परिगृह्णाति हिरण्येनोत्पुनाति आहुत्यैः पवित्राभ्यामुत्पुनन्ति व्यावृत्ते सदानम् भवति सदायुः पुरुषः शतेन्द्रियः आयुष्येवेन्द्रिये प्रतिष्ठति अनिभ्रष्टमसीत्याः अनिभ्रष्टग्यह्येतत् वाचो बन्धुरित्याह वाचो ह्येष बन्धुः तपोजा इत्याह तपोजाह्येतत् सोमस्य दात्रमसीत्याह सोमस्य ह्येतद्दात्रम् शुक्रावः शुक्रेणोत् पुनामीत्याह शुक्राह्यावः शुक्रगुम् हिरण्यम् चन्द्राश्चन्द्रेणेत्याह चन्द्राश्यापः चन्द्रगम् हिरण्यम् अमृता अमृते नेत्याह अमृता श्यापः अमृतगम् हिरण्यम् स्वाहा राजसंजायेत्याह राजसंजायह्येना उत्पुनाति स वादोद्युम् नीरोर्जरेता इति वारण्यर्चा गृह्णाति अरुणसमेववरुन्धे एकजागृह्णाति एकधैवयजमाने वीर्यम् दधाति क्षत्रस्योल्पमसि क्षत्रस्य यो निरसीत् तार्प्यम् चो श्लेषम् च प्रयच्छति स योनित्वाय एकशतेन गर्भपुञ्जीलैः पवयति सदा युर्वे पुरुषः शतवीजः पुरुषः तस्मिन् दीर्घम् दधाति दध्याशयति इन्द्रियमेवावरुन्धे कुतुम्बरमाशयति अन्नाद्यस्यावरुद्धे सष्पाण्याशयति सुराबलिमेवैरम् करोति आविद एता भवन्ति आविदमेवैनम् गमयन्ति अग्निरेवैनङ्गार्हपत्येनावति इन्द्र नेत्रावर्णोत्प्राणापानाभ्याः इन्द्रो वृत्रायमज्रमुदयच्छत् स दिवमलिखत् सोऽः पन्था अभवत् स आभ्यामेव प्रसूतो यजमानो वज्रम् भ्रातृव्याय प्रहरति आविन्ना देव्यजुतिर्विश्वरूपीत्याह इयम् वै देव्यजितिर्विश्वरूपी अस्यामेव प्रतिष्ठति आ विन्नो यमसावावश्यायणाः स्याम् विश्वस्मिन् राष्ट्रेण समर्धयति महते शर्त्राय महत आधिपत्याय महते जानराज्यायेत्याह आशिषमेवैतामाशास्ते एष वो भरता राजा सोमास्माकम् ब्राह्मणा नाघम् राजेत्याह अस्मात् सोम राजानो ब्राह्मणाः प्रणितरस्य वज्रोऽसि वाघ्न इति प्रयच्छति विजित्यै शत्रुबाधनास्थेतिषूहे शत्रूनेवास्य बाधन्ते पातमाः प्रत्यञ्चम् पातमातिर्यम् च मन्वञ्चम् मा पातेत्याह तिस्रो वेशरव्याः प्रतीचीतिरस्य नोचीः ताभ्य पान्ति दिग्भ्यो पातेत्याह दिग्भ्य पान्ति शाभ्यो मानाष्ट्राभ्यः पादेत्याह अपरिमिता देवैनम् पान्ति दे। हिरण्यवर्णावुशसाम् विलोक इति दृष्टुभा बाहू उद्गृह्णाति इन्द्रियम् वै भी वीर्यम् दृष्टुक इन्द्रियमेव वीर्यमुपरिष्टादात्मम् धत्ते दिशोऽभ्यास्थापयति दिशामभिजित्यै अभिदिशो जयेत् ऋतुमाद्येत् मनसा न प्रक्रावति अभिदिशो जयति नोन्माद्यति समिधमातिष्ठेत्याह तेज एवावरुन्धे उग्रामातिष्ठेत्याह इन्द्रियमेवावरुन्धे विलाजमाधिष्ठेत्याह अण्णाद्यमेवावरुन्धे उदीचीमातिष्ठेत्याह पशूने वृंधे मूर्ध्वातिष्ठे सुवर्गमे लोकमती अनोजिहते लोक मुत एषव अन्द वै मु अन्नमेवरुंधे एक कलोव्येनुवाख्यो गण तम्यत उपदे ग्राम्ये ग्राम्यैरेव पशुभिरारण्यान्पशून् परिगृह्णाति तस्माद् ग्राम्यैः पशुभिरारण्याः पशवः परिगृहीताः वृथिर्वेण्यः अभ्यशिष्यत स राष्ट्रम् नाभवत् स एतानि पार्थान्यपश्यत् तान्यजुहोत् तैरवै स राष्ट्रमभवत् यत्पार्थानि जुहोति राष्ट्रमेव भवति बार्हस्पत्यम् पूर्वेषामुत्तमम् भवति ऐन्द्रमुत्तरेषाम् प्रथमम् ब्रह्म जीवास्मै क्षत्रम् च समीची दधाति अथो ब्रह्मन्नेव क्षत्रम् प्रतिष्ठापयति षट् पुरस्तादभिषेकस्य जुहोति षडुपरिष्टात् द्वादशसम्पद्यन्ते संवत्सरः संवत्सरः खलु वि देवानाम् भोः देवानामेव पुरम् मध्यतोऽ्यवसत्पति तस्य न कुतश्च तस नोपाव्याधो भवति भूतानामवेष्टीर्जुहोति अत्रात्र वै मृत्युर्जायते यत्र मृत्युर तत एवै तस्माग्राजसूयेने जानः सर्वमायुरेति सर्वे ह्यस्य मृत्यवो वेष्टाः तस्माग्राजसो येने जानोनाभिचरितमै प्रत्यगेनमभिचारस्तृणुते सोमस्य त्रिषिरसि तवेव मे द्विषिर्भूयादिति शार्दूलचर्मोपस्तृणादि यैव सोमे त्विषिः यासार्दूले मेवावरुन्धे मृत्योर्वा एष वर्णः यच्छा आर्दूलः अमृतबम् हिरण्यम् अमृतमसि मृत्योर्वा पाहे हिरण्यमुपास्यति अमृतमेव मृत्योरन्तर्धत्ते सतमानम् भवति सतायुः पुरुषः सतेन्द्रियः आयुष्येवेन्द्रिये प्रतिष्ठति दिद्योन्मा पाहेत्युपरिष्टादधि निदधाति उभयत एवास्मै शर्म दधाति अवेष्टा दन्तशोका इति क्लीबगम् सीसेन विध्यति दन्तशोकानेवावयजते तस्मात् क्लीबम् दन्तशोकादगुम् शुकाः निरस्तम् नमुचे शिर इति लोहिताय सन्निरस्यति पाप्मानमेव नमु चिन्निरवदयते प्राणा आत्मनः पूर्वेऽभिषिच्यादित्याहुः सोमो राजा वरुणः देवाधर्मसुमश्चये ते ते वाचकुम् सुमन्ताम् ते ते प्राणकुंसुवन्तामित्याह प्राणानेवात्मनः पूर्वानभिषिंसति यद्भ्रूजा अग्नेस्त्वातेजसाभिषिञ्चामेति तेजस्येवस्यात् दुश्चर्मा तु भवेत् सोमस्य त्वाद्युम्नेनाभिचिन्दामीत्याह सौम्यो सो वै देवतया पुरुषः स्वदेवैनम् देवतयाभिमिञ्चति अग्नेस्तेजसेत्याह तेज एवास्मिन् दधाति सौर्यस्य वर्चसेत्याः वर्च एवस्म दधाइंद्रस््रिएणेह इंद्रिजस्मी दधा मित्रर्णीघेणे गीमेवास्म दधा मरुतामोजसेजा क्षत्रण क्षत्रपतिरसेह क्षत्राणन क्षत्रपति कौती अतिदिवः स्पाहीत्याह अत्यन्यान् पाहीति वा वैतदाः समाववृत्रम् न धरागुदीचीरित्याह राष्ट्रमेवास्मिन्ध्रुवमकः उच्छेषणेन जुहोति उच्छेषणभागो वै रुद्रः भागधेयेनैव रुद्रम् निरपदयते उदन्परेत्याग्ने जुहोति एषा वै रुद्रस्य जग स्वायामेव दिशि रुद्रम् निरवदयते रुद्रयत्ते क्रयीपरन्नामेत्याह यद्वा अस्य क्रजीपरन्नाम तेन वा एष हिनस्ति यदुम् हिनस्ति तेनैवैनगुम् सह हुतमसि यमेष्टमसीत्याह यमा देवास्य प्रजापतेन त्वदेतान्यगिति तस्यै गृहे जुहुयात् याङ्कामयेत राष्ट्रमस्यै प्रजा स्यादिति राष्ट्रमेवास्यै प्रजा भवति पर्णमयेनाध्वर्युरभिषिञ्चति ब्रह्मवर्चसमेवास्मिन् विषिन् दधाति औदुम्बरेण राजन्यः ऊर्जमेवास्मिन्नन्नाद्यम् दधाति आश्वत्थे न वैश्यः विषमेवास्मिन्पुष्टिम् दधाति नैयग्रोधे न जन्यः निण्येवास्मै कल्पयति अधोत्प्रतिष्ठित्यै इन्द्रस्य वज्रोऽसिमात्रघ्न इति रथ उपावहरति विजित्यै निमित्रावरुणयोस्ता प्रशास्त्रोः प्रशिशायुनज्मीत्याह ब्रह्मणे वैलम् देवताभ्यायुनक्ते वृष्टिवाहिनञ्जुनक्ति व्रष्टिवाहे मै देवरथः देवरथमेवास्मैजुनक्ति त्रयोस्वा भवन्ति रथश्चतुर्थः तुसौ येष्ठसारथी षट्सम्पद्यन्ते षड्वा ऋतवः ऋतुभिरेवैनञ्जुनक्ति कृष्णक्रमान् रमते विष्णुरेव भू त्वे मान् लोकानभिजयति यः क्षत्रियः रभदे राष्ट्रमेव भवति दृष्टुभान् वारभदे इन्द्रियम् वै दृष्टु इन्द्रियमेव यजमाने दधाति मरुताम् प्रसदे जेषमित्याह मरुद्भिरेव प्रसूतमुज्जयति आप्तम् मननित्याह यदेव मनसैप्स्येत् तदात् राजन्यञ्जिनाति नाक्रान्त एवाक्रमते विवा एष इन्द्रियेण वीर्येण्यते यो राजन्यञ्जिनाति समहमिन्द्रियेण वीर्येणेत्याह इन्द्रियमेव वीर्यमात्मम् धत्ते शूनाम् मन्युरसितमेव मे मन्युर्भूयादिति पाराही उवानहापमुञ्चते शूनाम् वा एष मन्यः यद्वराहः तेनैव पशूनाम् मन्यमात्मम् धत्ते अभिवा यगुं शषु बाणम् कामयते तस्येश्वरेन्द्रियम् वीर्यमादातोः वाराहि उपानहामुपमुञ्चते अस्या एवान्तर्धक्ते इन्द्रियस्य वीर्यस्यानाद्यै नमो मात्रे पृथिव्या इत्याहाहिंसायै यदस्यायुरस्यायुर्मेधेहेत्याह आयुरेवात्मन्धत्ते ऊर्जस्योर्जम् मेधेहेत्याह ऊर्जमेवात्मन्धत्ते युङसि वर्चोऽसि वर्चो मयि धेहेत्याह वर्च एवात्पन्धत्ते एकथा ब्रह्मण उपहरति एकथैव यजमान आयुरोर्जम् वर्चो दधाति रथमिवचनीयाजुहोदिप्रतिष्ठेत्ये त्रयोश्वा भवन्ति रथश्चतुर्थः तस्माच्चतुर्जुहोदि यदुभौ सः अवतिष्ठेताम् सवानम् लोकमिजाताम् सह सङ्ग्रहेत्रा रथवाहने रथमादधाति स्वर्गादेवैलम् लोकादन्तर्दधातिषरित्यादधाति ब्रह्मणैवेन उवापहरति ब्रह्मणा दधाति अदिच्छन्दसा दधाति अतिच्छन्दा वै सर्वाणि छन्दांसि सर्वेभिरेवैन छन्दोभिरादधाति ब्रह्म वा एषा छन्दसाम् यददिच्छन्दाः यदतिच्छन्दसा दधाति क्रष्मैवेंसमानानाङ्करोति मित्रोऽसि वरुणोऽसेत्याह मैत्रम् वा अहः वारुणी रात्रिः अहोरात्राभ्यामेवैनमुपावहरति मित्रोऽसि वरुणोऽसीत्याह मैत्रो वै दक्षिणः वारुणः सव्यः वैष्वदेव्या वीक्षाः स्वमेवैनोभागधेयमुपावहरजि समहंश्वैर्देवैरित्याह वैश्वदेव्या वै, वै प्रजाः एवाद्याः कुरुते क्षत्रस्य नाभिरसि क्षत्रस्य योभिरसेत्यधि वासमास्त्रणातिशयो नित्वाय स्यो नामासीद सुषधामासीदेत्याह रसायजरेवैतत् मा त्वाहि पुंसेन् मामाहि पुंसेदित्याहाहिगुंसायै निष्पसादव्रतो वरुणः पस्यास्व साम्राज्यायशुक्रतुरित्याह साम्राज्यमेवेन सुक्रतम् करोति राजम् ब्रह्मासि ब्रह्मा सवितासि सत्यस भगित्याह सवितारमेवेनकुम् सत्यस भङ्गं करोति ब्रह्म सत्यो इत्याहम् सत्यौ चित्रोऽ इत्याह मित्रेवम् गुम् राजम् ब्रह्मासि वरुणोऽसि सत्यधर्मेत्याह वरुणमेवैनकम् सत्यधर्माणम् करोति सकिलासि सत्यस भगित्याह गायत्रीमेवेदेनाभिव्याहरति इन्द्रोऽसि सत्यो धा इत्याह दृष्टुभमेवेदेनाभिव्याहरति नेत्रोऽसिषे भगित्याः जगतीमेवेदेनाभिव्याहरति सत्यमेता देवताः सत्यमेतानिच्छन्दागुंसि सत्यमेवावरुन्धे वरुणोऽसि सत्यधर्मेत्याह अनुष्टुभमेवैतेनाभिव्याहरति सत्यानृते वा अननुष्टुव सत्यानृते वरुणः सत्यानृते एवावरुन्धे नैनकुम् सत्यानृते उदिते हि ग्रस्तः य इन्द्रस्य वज्रोऽसि वज्रो वैश्यः वज्रेणैवास्मा अवरपरगुम् रन्धयति एव गुम् हितच्छ्रेयः यदस्मा एतेरद्ध्येयोः दिशोऽध्यजगुम् राजाभूदिति पञ्चाक्षान् प्रयच्छति एते वै सर्वेयाः अपराजायिनमेवैरम् करोति ओदनमुद्ब्रुवते परमेष्टिवा एषः यदोदनः परमामेवैनद्य श्रियङ्गमयते स्वश्लोका सुमङ्गमा शेपमाख्यापयते वरुणपाशा देवैनम् मुञ्चति परः शतम् भवति सदायुः पुरुषः शतेन्द्रियः आयुष्येवेन्द्रिये प्रतिष्ठति मारुतस्य चैकविगुंसति कपालस्य वैश्वदेवी भिक्षाया अग्नरे समगद्यति देवताभिरेवेण भयतः परिगृह्णाति अपार्णक्रे स्वाहोर्जुनक्रे स्वाहार्गे गृहपजये स्वाहे चिस्र आहुतेऽर्जुहोति प्रयजमे लोकाः एष्वेव लोकेश प्रतिष्ठति ओ इति प्रथमाष्टके सप्तमः प्रश्नः